श्रीहरे नमः अत एकदशोऽध्यायः श्रीशुक उवाच गोपानन्तादयश्रुत्वा द्रुमयोपततोरभं तत्रा जग्मो कुरु श्रेष्ठनिर्घाधभयसङ्किताः भूम्यां निपतितौ तत्र तत्रुसूर्यमलार्जुनौ भभ्रमुस्तदविज्ञायलक्ष्यं पतनकारणम् उलूकलं विकर्षन्तं धाम्ना बद्धं च बालकं कश्यदे कुत आश्चर्यमुत्पादयिति कातराः बालावूचो अनेनेति तिर्यगतमुलूकलं विकर्षतामद्यघेन पुरुषावप्यचक्ष्महे न ते तदुक्तं जुगृहोर्न घटेतेति तस्य तत् बालस्योत्पाटनं तर्वोः केश्चित् सन्दिक्तचेतसः उलूकलं स्वमात्मजं विलोक्यनं प्रहसद्वधनो विमुमोचः गोपीभिस्थोभितो नृत्यद्भगवान् भालवत् क्वचित् उद्गायते क्वचिन्मुग्धस्तत्त्वसो धारु यन्त्रवत् बिभर्ति क्वचिदाज्ञप्तपीटकोन्मानपादुकम् भागुक्षेपं च कुरुते स्वानाम् च प्रीतिमावहन् तश्चयन्स्तद्वितां व्रजस्यो व्रजस्योवाकवै हर्षं भगवान् बालचेष्टितैः क्रीणिहि भो फलानीति श्रुत्वा सत्वरमच्युतः पालार्तिधान्यमाधाय ययौ सर्वफलभ्रत्प्रदः फलविक्रयिणी तस्य चु धान्यं करद्वयं फलैरपूरयत्रत्नैफलपाण्डमपूरि च चरित्री कृष्णं भग्नार्जुनम् अथाह्वयत् रामं चरोहिणी देवी क्रीडन्तं बालकैर्भृशम् नोपेयातां यथाहूतौ क्रीडा शङ्घेन पुत्रकौ यशोधां प्रेक्षयामा सरोहिणीपुत्रवत्सलां क्रीडन्तं सा सुदं बालैरतिवेलं सहाग्रजं यशोधा जोकवेत्कृष्णं पुत्रस्नेकस्नुतस्तनी कृष्णकृष्ण अरविन्दाक्षतातये हि स्तनं पिब अलम्बिकारै चोक्षान्तक्रीडाश्रान्तोऽसि पुत्रक हे राम गच्छ तथा सुसानुजकुलनन्दन प्रातरेव कृताहारस्तद्भवान् भोक्तुमर्हति प्रतीक्षते त्वां दासार्ह मोक्षमाणो ये ह्या वयो प्रियं देहि स्वगृहान् याधबालकाः धूलीधूसरिताङ्गस्त्वं पुत्रमज्जनमावहा जन्मक्षमद्य भवतो विभ्रेभ्यो देहि गाशुचिः पश्य पश्य वयस्यां स्ते मातृं स्वलङ्कृतान् त्वं च कृताहारो विहरस्वस्वलं कृतः इत्तं यशोधातम् शेखरं मत्वा सुतं स्नेहनिभद्यनृप हस्ते गृहीत्वा सहरामं रामं मच्युतं नीत्वा स्वबाटं कृतवत्यतोदयम् गोपौ वृद्धामहोत्पाताननुभूय बृहत्त्वने नन्दाय सामगमव्यव्रजकार्यमन्त्रयन् देशकालार्थतत्त्वज्ञप्रियं कृमकृष्णयोः उत्तातव्यमितोऽस्माभिर्गोकुलस्य हितैषिभिः आयान्त्यत्र महोत्पातबालानासहेतवः मुक्तः कथञ्चित् राक्षस्या बालज्ञा बालको ह्यसौ हरे अनुग्रहान् नून मनश्चोपरिणापतत् चक्रवातेन नीतोऽयं दैत्येन विपदं द्वियेत् शिलायां पतितस्तत्र परित्रात सुरेश्वरैः यन्नं म्रियेतदृमयोरन्तरं प्राप्य बालकः असावन्यतमोलापि यावदौपातिको रिष्ठो व्रजं नाभिभवेदितः तावद्बालानुपाधाय वनं वृन्दावनं नामपसव्यं नवकाननं गोपगोपी गवां सेव्यं तत्तत्राद्यैव यास्याम सकटान्युङ्क्तमाशिरं गोतनान्यग्रथो यान्तु भवतां यदि रोचते तच्छ्रुत्वै गतियो गोपाशादुशात्वितिवादिनः व्रजान् स्वान् स्वान् वृद्धां बालां स्त्रि राजजन सर्व भगा चनस्वागोपालय आत्सरासना गोतनानि पुरस्कृत्य शुंगाणी आपूर्य सर्वतः तूर्यघोषणे महताय युस्सखपुरोहिताः गोभ्यो रूढरथानूत्नकुशकुङ्कुमकान्तयः कृष्णलीलाजगुःप्रीता निष्ककण्ठ्यस्सुवाससः ततायशोधारोहिण्यावेकं सकटमास्ति ते रेजतु कृष्णरामाभ्यां तत्तत् कथाश्रवणोत्सुके वृन्दावनं सम्भ्रविश्च सर्वकालसुखावहं तत्र चक्रोर्व्रजावासं सकटैः अर्धचन्द्रवत् बृन्दावनं कोवर्धनं यमुना पुलिनानि च वीक्षासीत् उत्तमा प्रीतिराममाधवयो नृप एवं व्रजौ कसां प्रीतिं कलवाक्यै स्वकालेन वत्सपालौ बभूवतु अविदूरे व्रजः भुवः सखगोपालधारकैः शारयामा चतुर्वत्साना क्रीडा परिच्छदौ क्वचित् बाधयतो वेणं क्षेपण क्षिपत क्वचित् क्वचित् त्रिमघो वृषैः वृषाय माणौ नाद्धन्तौ युयुधा ते परस्परम् अनुकृत्य प्राकृतौ यत कदाचित्यमुना तीरे वत्सां श्राव्यतो स्वकैहे वयस्यै कृष्णभलयोर्जुगांसोर्धैत्य आगमत् तं वत्सरूपिणं वीक्ष वत्सयूत गतं हरिः दर्शयन् बलदेवाय सनैर्मुक्तैवासधत् गृहीत्वा परपाधाभ्यां सकलाङ्गूलमश्युतः भ्रामयित्वा कपित् धाक्रे प्राहिणोद्गतजीवितं स कपित्तैर्म का पपातः तम् वीक्ष्य विस्मिता भाला सशंसु देवाश्च परिसन्तुष्टा बभूवुः पुष्पवर्षिणः तौ वत्सपालकौ भूत्वा सर्वलोकैकपालकौ सप्रातरासौ गोवत्सां शारयन्तौ विचेरतुः स्वं संवत्सकुलं सर्वे पाशयित्यन्तये गता गत्वा जलाशयाभ्यासं पाययित्वा पपुर्जलम् ते तत्र दत्रुशोर्भाला महासत्वमवस्थितं तत्र सूर्वज्रनिर्भिन्नं गिरे शृङ्गमिव च्युतं स वै भगो नाम महानसुरो भगरूपधृ आगत्य सखसा कृष्णं तीक्ष्णतुण्डोऽग्रसत् भलिये कृष्णं महाभग्रस्तं दृष्ट्वा रामतयोर्भगः बभूपुरेन्द्रियाणीव विना विचेतसः तं तालुमूलं प्रदहन्तम् अग्निवद्गोपालसूनुं पितरं जगद्गुरोः षर्दश ज्योतिरुषाशदम्भगस्तुण्डेन कन्त्वं पुनरप्यपद्यताम् मापतन्तं सनिगृह्यतुण्ढयोर्धूर्भ्याम्बकं कंस सकं सताम् पतिः पश्यत् सुभालेशु दतार लीलया मुदा बहो वीर्णवद्दिवौकसां तथा तत्पीक्ष गोपालसुताभिसिस्मिरे मुक्तं बहः स्यात् स्थानागतं तं परिरभ्य निर्वृता प्रणीयवत्सन् व्रजमेत्य तज्जगुः श्रुत्वा तद् विस्मिता गोपा गोप्यश्च अतिप्रिया धृताः प्रत्यागतमिव औत्सुक्या धैक्षन्तदृशि देशणाः अकोभथास्य बालस्त्य मृत्यवो भवन् अप्यासीद्विप्रियं तेषां कृतं पूर्वं यतो भयम् अथाप्यभिभवन्त्येनं नैव ते घोरधर्षणाः जिगांसयै न... नमासाध्य नश्यन्ध्यग्नौ पतङ्गवत् अहो ब्रह्मविद्विधां वि... वाचो नासत्या सन्त्य चे गर्गो यदागभगवान् अन्वभावि तथैव तत् इति नन्धातयो गोपा कृष्णरामकथां मुदा कुर्वन्तो रममाणाश्चनाविन्दन् भववेदनाम् एवं विकारैः कौमारैः कौमारं जगतुर्व्रजेन् निलायन सेतुभन्तैर्मार्कटोत्प्लवनादिभिः इति श्रीमद्भागवते महापुराणे दशमस्कन्धे पूर्वार्थे वत्सभगवतो नाम एकादशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथमहराजकी जय